श्रीमद्भागवत् महापुराणं च संस्कन्ध अस त्रिषष्टितमोऽध्यायः भगवान् श्रीकृष्णके साथ बाणासुर्कायुद्ध श्रीशोकुवाच अपश्यतां चानिरुद्धं तद्वधूनां च भारत चत्वारो वार्षिकामासाव्यतियोरनुशोचताम् नारदात्तदुपाकर्णवार्ताम्बद्धस्य कर्म च प्रयुशोणितपुरं विष्णय कृष्णदेवताः प्रद्युम्नो युधानश्च गदसाम्बोधसारणः नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिनः अक्षोषिणीभिर्द्वादशिभिः समेता सर्वतोदिशम् रुधुर्माणनगरं शमन्ता सा तुतर्षभाः भज्यमानपुरोद्यानप्रकाराट्टां लघुपुरं प्रेक्षमाणो रुषाविष्टस्तुल्यसैन्योऽभिनिर्ययौ वाणार्थे भगवान् रुद्रशसुतैर्प्रमुतैर्वृतः आरुह्य नन्दिवृषभं युविधे रामकृष्णयोः आसीत सुतुमूलं युद्धम् अद्भुतं रो महर्षिणम् कृष्णशङ्करयो राजन् प्रद्युम्न गुहयोरपि कुम्भाण्डकूपकर्णाभ्यां बलेन स संयुग साम्बस्य बाणपुत्रेण बाणेन स सात्यकेः ब्रह्मादय सुराधीशामुनियसिद्धचारणाः गन्धर्वाप्सरसोऽयक्षाविमालै द्रष्टुमागमनं शङ्करानुचराछौरीभूतप्रमतगुय्यकान् डाकनिर्यातुधानाश्च वेतालांशु विनायकान् प्रेतमातृपिसाचाश्च कुष्माण्डान् ब्राह्मन् ब्रह्मराक्षसान् द्रावयामासतिष्णाग्रैः सरैः सार्गसनुच्युतये पृथग्विधानी प्रायुक्तं पिनाक्यस्त्राणि शाङ्गिले प्रत्यस्त्रै ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च मोहयित्वा तु गिरिशं जिम्भृणास्त्रीण जिम्भृतं बाणस्य प्रीतनां शौर्य जघानाशीगलेषुभि स्कन्द प्रद्युम्न बाणौ घै अर्जमानसमन्ततः असिं विमुञ्चनगात्रेभ्य शिखिनापाक्रमदृणान् कुम्भाण्डकूपकर्णश्च पेतुर्मश्लादितौ दुद्रवोस्तदन्नीकानि हिंहतनाथानि सर्वतः विसर्यमाणं शबलं दृष्ट्वा बाणौ चमर्षणः कृष्णमभ्यद्रवसङ्ख्ये रथिः त्वैव सात्य किं धनुष्याकृष्ययुगपद्माणपञ्चशतानि वै एकैकस्मिंश्चरौ द्वौ द्वौ सन्दधेरणदुर्मदः तानि चिक्षेद भगवान् धनुंसे युगपद्धरीः सारथिं रथमवाश्च हत्वा शङ्खमपूरयन् तन्माता कोटरा नाम पुरोवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया ततत्यरि अङ्मुखो नाग्नामनिरीक्षन् गदाग्रजः बाणश्च तावद् विरथन् छिन्दधन्वापिषत्पुरम् विद्राविते भूतगणेश्वरस्तु त्रिशिरास्पात् अभ्यधावद् सार्हं दहन्नेवतिषोदश अथ नारायणो देवस्तं दृष्ट्वाभ्यसृज्वरं माहेश्वरो वैष्णवश्च युधा ते ज्वराबुभौ नाहेश्वर समाक्रन्दन् वैष्णवेन बलार्जितः न लब्ध्वा भयमन्यत्र भीतो माहेश्वरो ज्वरः शरणार्थी श्री तुष्टाव तुष्टावप्रेताञ्जलिः जरुवाच नमामि त्वाऽनन्तशक्तिं परेशम् सर्वात्मानं केवलं ज्ञाप्तिमात्रम् विश्वोत्पत्तिस्थानसंरोधहेतुं यत्तद्ब्रह्म ब्रह्मलिङ्गं प्रशान्तम् कालो दैवं कर्म जीव स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकार तत्सङ्घातो बीजरोहप्रवाह तुमान्यैषा तन्निषेधं प्रपद्ये नानाभावै लीलयैवोपपन्नै ली देवान् साधुन् लोकसेतुन् विभर्षिन् हंसिन्मार्गान् हिंसया वर्तमानान् जन्मै तत्ते भारः रायभूमेः तप्तोऽहं ते तेजसा दुस्सहेन शान्तोऽग्रीणात्युल्पबलेन चोञ्ज्वरेण तावत्तापो देहिनां देङ्घ्रिमूलं नो सेवेरन्